मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं टेन् वत्सरासिदशान्तिवर्णनम् श्रीगणेशाय नमः नैध्रुव उवाच श्रुत्वा कथां महाभागक्रोधशान्तिकरीं प्रभो न दृप्यामि पुनः स्वामिन् वद विघ्नेशचेष्टितम् त्वया पृष्ठकथं ब्रह्मा स जगाद किमप्यहो तद्वदस्वदयासिन्धोतादयोगप्रदं हिचेद मुद्गल उवाच एवं पृष्टो महादेजा नै ध्रुवेण पितृव्यकः कथान्तरमुवाचेदं महायोगप्रदं महद असित उवाच शृणुपुत्र प्रवक्ष्यामि योगशान्तिपदप्रदं गणेशानस्यमाहात्म्यं ब्रह्मेशस्य विचक्षण ब्रह्माणं च प्रणम्यादा वपृच्छं विनयान्विदः वदता दमः योगं शान्तिदं सर्वतारक सहजे च महायोगिन् स्वाधीनत्वं प्रदृश्यते स्वेच्छामयं कथं नाधा भवति ब्रह्मदे नमः अधः शान्तिविहीनौ त्वां समागतौ न संशयथ शान्त्यर्थं वद किं सेव्यं करिष्यावस्त्वदाज्ञया असिद उवाच वत्सरेण मयातादपृष्ठः सर्वविधां वरः उवाच प्रेमसंयुक्तो गाणपत्यः पिदामहः कर्मज्ञानं समं ब्रह्मसहजं तु चदुर्धकं तेषां संयोगभावे वै स्वानन्दो मौनधारकः तत्र स्वाधीनकं ब्रह्मपराधीनं कुतस्त्रिधा स्वसंवेद्यमयेनैव सुदो योगेन लभ्यते संयोगो मायया युक्तसर्वसंयोगभावतः अयोगे सर्वसंयोगो नश्य निवृत्या स्वधिया ब्रह्म प्राप्यते नान्यथा क्वचिद स्वकीया भेदतस्तत्र निवृत्तिर्योगिभिर्धृदा संयोगा योगयोर्योगे योगः शान्तिप्रदायकः शान्ध्या स एव लभ्यश्च शांतिपरम पूर्ण गणेशं संवदीच वेदास्तं भाव संयुक्त मुनी यदि भजिष्यधा शादीयुत योगी भव योगी संमतौ भविष्यधो महाभागौ न्ये वचो नृतम सम्प्रज्ञादमयो देहोत्सम्प्रज्ञादमयं शिरः गजाकारं तयोर्योगे गणेशो देहधारकः गणाःसमूहरूपाश्च समूहात् ब्रह्मवाचकाः तेषां स्वामिन सन्देहो गणेशो नामधारकः चित्तरूपामहाबुद्धिश्चित्तं मोहकरीमदा सिद्धिस्तयोः पतिः साक्षाद्गणेशो वेदवादधः चित्तं मोहयुधं त्यक्त्वा चिन्तामणिं भजिष्यथः योगशान्त्या महाभागौ नित्यं तं योगरूपकम् असिद उवाच यवमुक्त्वा वा विधाता वां विररामहामदे वत्सरेण समायुक्तस्तं प्रणम्य वनेगमम् आवाभ्यां साधितं पुत्र यथोद्दिष्टं च वेधसा शमदमयुधाभ्यां वैशान्धिप्राप्ता सुनिश्चला तथापि गणराजस्य भजने निरतौ पुरा गते वर्षे गणाध्यक्ष आययौ वरदायकः तं दृष्ट्वा प्रणतौ देवं पुनः पूज्य यथाविधि तुष्टु विव भक्त्या नम्रात्मकन्धरौ असिधवत्सरावोचदुः लम्बोदरनमस्तुभ्यं सततं योगरूपिणे योगाकारशरीराय योगशान्तिप्रदायिने विघ्नेशाय महाभक्तानां विघ्नहरणाय च अभक्तानां महाविघ्नकारिणे ते नमो नमः स्वानन्दवासिने तुभ्यं सदा स्वानन्ददायिने मूषकवाहनायैव मूषकध्वज वै नमः अनादाय गणेशाय सर्वेषां नाथरूपिणे नाधानां नादरूपाय विनायक दे हे रम्भाय ज सर्वेषां मात्रे पित्रे नमो नमः ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठानां ज्येष्ठते नमः अमेयाय प्रमेयायानन्दखेलकराय ते अनन्तानन्दरूपाय अनन्ददाय नमो नमः सिद्धिबुद्धिपदेनान्धभक्तसंरक्षकाय च नानाशक्तिप्रपालायानन्दमाया विहायिने गजवक्त्राय सर्वेषामादिपूज्याय ते नमः सर्वपूज्याय सर्वेषां सिद्धिदाय नमो नमः वक्रतुण्डाय वीराय चैकदन्ताय ते नमः महोदराय देवाय देवदेवेश ते नमः असुराणां सहायाय नानावरप्रदाय च असुराणां निहन्त्रेद असुराय नमो नमः ब्रह्मणां पदये तुभ्यं ब्रह्मणां भ्रह्मा ब्रह्माकाराय वैढुण्ठे वेदवेद्याय ते नमः मनोवाणी विहीनाय मनोवाणीमयाय च योगेशाय परेशाय सर्वामय विवर्जित किं स्तुवस्त्वां गणाधीश यत्र शान्तिं समागताः वेदा योगीन्द्रमुख्याश्चास्तुवन्तं प्रणमावहे एवं स्तुतो गणाधीशस्तौ जगादमहामुनि वरं संवृणुतं विप्रौ दास्यामि भक्तियन्द्रितः भवद्भ्यां यत्कृतं स्तोत्रं तदेव मे प्रियं भवेद सर्वसिद्धिप्रदं पूर्णं तथा मद्भक्तिदायकं एवमुक्तौ महायोगिनावोच दुर्गजाननं भक्तिं देहि गणाध्यक्षतोत्पदे सुदृढां परां गणपत्यप्रियत्वं नौ देहिनाध नमोस्तुदे दे नान्यं वरं गणाधीश वृणुवत्सुखदं कदा तथेदि तावो वाचाध गणेशोऽन्तर्दधे स्वयम् आवां भक्तिसमायुक्तौ भजा वो गणनायकम् वत्सज्ञानं गणपदेर्मया शमदमपरो भूत्वा भजतं गणनायकम् एव मुक्त्वा सितस्थं वै नैध्रुवं गणपस्य सह मन्त्रं ददौ प्रजानाथ तस्मात् एकाक्षरं पुनः तदश्चान्दर्हितो योगी सोऽसिदः परमार्थविद गणेशं नैध्रुवस्तेभे तपः यत्नदः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते वत्सरास्थितशान्तिवर्णनं नाम दशमोऽध्यायः ओ